अथैकोनपञ्चाशः सर्गः अफलस्तु ततश्चक्रो देवानग्निपुरोगमान् अब्रवीत्रस्तनयनः सिद्धगन्धर्वचारणान् कुर्वता तपसो विघ्नम् गौतमस्य महात्मनः क्रोधमुत्पाद्य हिमया सुरकार्यमिदम् कृतम् अफलोऽस्मि कृतस्तेन क्रोधात् सा च शापमोक्षेण महता तपोस्यापहृतम् मया तन्माम् सुरवराः सर्वे सर्षिसङ्घाः सचारणाः सुरकार्यकरम् यूयम् सफलम् कर्तुमर्हथा शतक्रतोर्वचः श्रुत्वा देवाः साग्निपुरोगमाः पितृदेवानुपेत्याहुः सर्वे सह मरुद्गणैः अयम् एषस्य मेषस्य वृषणौ गृह्यशक्रायाशु प्रयच्छत अफलस्तु कृतो मेषः पराम् तुष्टिम् प्रदास्यति भवताम् हर्षणार्थम् च ये च चा दास्यन्ति मानवाः अक्षयम् हि फलम् तेषाम् यूयम् दास्यथ पुष्कलम् अग्नेऽस्तु वचनम् श्रुत्वा पितृदेवाः समागताः उत्पाट्यमेष वृषणौ सहस्राक्षेऽण्यवेषयन् तदा प्रभृति काकुत्स्थपितृदेवाः समागताः अफलान् भुञ्जते मेषान्फलैस्तेषामयोजयन् इन्द्रस्तु मेष वृषणस्तदा प्रभृतिराघवा गौतमस्य प्रभावेण तपसा च महात्मनः तदा, तदा गच्छ महातेज आश्रमम् पुण्यकर्मणः तारयीनाम् महाभागामहल्याम् देवरूपिणीम् विश्वामित्रवचः श्रुत्वा लक्ष्मणः विश्वामित्रम् पुरस्कृत्य आश्रमं प्रविवेशः दर्श च महाभागाम् तपसा द्योदितप्रभाम् लोकैरपि समागम्य सुरासुरैः प्रयत्नान्निर्मिताम् धात्रा दिव्याम् मायामयीमिव दीप्तामग्निशिखामिव स तुषारावृताम् साभ्राम् पूर्णचन्द्रप्रभामिव मध्येम्भसो दुराधर्शाम् दीप्ताम् सूर्यप्रभामिव सा हि गौतमवाक्येन दुर्निरीक्ष्या बभूवः त्रयाणामपि लोकानाम् यावद्रामस्य दर्शनम् शापस्यान्तमुपागम्य तेषाम् दर्शनमागता राघवौ तु पादौ जगृहतुर्मुदा स्मरन्ती गौतमवचः प्रतिजग्राहसाहितौ पाद्यमर्घ्यम् तथातिथ्यम् चकारसु समाहिता प्रतिजग्राहकाकुत्स्थो विधिदृष्टेन कर्मणा पुष्पवृष्टिर्महत्यासीद्देवदुन्दुभिनिस्वनैः गन्धर्वाप्सरसाम् समपूजयन् तपो बल विशुद्धांगी गौतम वशाुगा गौतम भी महातेजा अहल्या सहित सुखी राम सूज्य विधिवस्ते महात रा परमा पूजा गौतम से महामुनेकाशा विधिवत्प्य जगा म मिथिला इर्शे श्रीमद्राणे वाक आदि का बाकांडे एक पंचाश्त सर्ग